नारदपुराणम् पूर्वार्थम् अध्यायम् हण्ड्रेड् अण्ड् ट्वेल्व् सनातन उवाच शृणु नारदवक्ष्यामि तृतीयाया व्रतानि ते यानि सम्यग्विधायासु नारी सौभाग्यमाप्नुयाद चैत्रशुक्लतृतीयां गौरीं कृत्वा सभर्तृकां सौवर्णा राचतीं वापि ताम्नीं वा मृण्ययीं द्विजः अध्यर्थ्य गन्धपुष्पाद्यस्रैराभरणैः शुभैः धूर्वा काण्डैश्च विधिवत् वरार्थिनीच सोपवा साधु कन्का वरार्थिनी चौभाग्यपुत्र भर्िनी तथा द्विजार भर्तृम कन्का सुलक्षणा सिंधुरांजनवस्त्री प्रत प्रतोष्य प्रीतमानस रात्रौ जागरणं कुर्याद्व्रतसम्पूर्तिकाम्यया तदस्तां प्रतिमां विप्र गुरवे प्रतिपादयेद धादुजां मृण्मयीं वादो निक्षिपे च जलाशये एवं द्वादशवर्षाणि कृत्वा गौरीव्रतं शुभं धेनुद्वादशसङ्कल्पं दद्यादुत्सर्ग सिद्धये किमत्र गौरी सौभाग्यदायिनी त्रीणां यथा तथा नान्या विद्यते भुवनत्रये धनं पुत्रान्पदिं विद्यामाज्ञा सिद्धिं यशः सुखं लभते सर्वमेवेष्टं गौरीमभ्यर्च्य भक्तिदः ध शुक्लतृतीया साक्षया परिकीर्तिता तिधिस्त्रोदा युगाद्या सा कृदस्याक्षयकारिणी तिधिस्त्रेदा युगाद्या सा कृदस्याक्षयकारिणी द्वे शुक्ले द्वे तथे द्वे शुक्ले द्वे तथा कृष्णे युगादी कवयो विदु शुक्ले के कृष्णे पूर्वाक ग्राह्येषे चथ र्भाद्रे प्रवृत्ता युगा वै तध तृदीयां श्री समेद जगदुर नाराणं सच्ये पुष्पधूपविलेपनैः यद्वा गङ्गाम्बसि स्नातो मुच्यते सर्वकिल्बिषैः अक्षतैः पूजयेद्विष्णुं स्नायादप्यक्षतैर् नरः सकृन् संभोजयेद्विप्रान् स्वयमभ्यवहत् स्वयमभ्यवहरे च तान् एवं कृतविधिर्विप्रनरो विष्णुपरायणः विष्णुलोकमवाप्नोति सर्वदेव नमस्कृतः अदज्येष्टतृतीयादि शुक्लारम्भे दिनामदः तस्यां सभायां विधिवत् पूजयेत् ब्राह्मणोत्तमम् दन्तपुष्पांशुपाद्यैस्तु नारी सौभाग्यकाम्यया रम्भां व्रतमिदं विप्रविधिवत् समुपाश्रिदं ददादिवित्तं पुत्रांश्च मदिं धर्मे शुभावहाम् अथा शुक्लायां शुक्लवाससा कशवन्तु स लक्ष्मी द्विजोर्चयेद् भोजनैः सुरभिधानैर्वस्त्रैश्चाभिविभूषणैः प्रियेर्वाक्यैर्भृशं प्रीता नारी सौभाग्य वाञ्चया समुपास्य व्रतं धान्य समन्विदा देव चैदधनधान्यसमन्विता देवदेवप्रसादेन विष्णुलोकमवाग्नुयाद नभशुक्लतृतीयां स्वर्णगौरीव्रतं चरेद मभिपूजयेद पुत्रान् देहि धनं देहि सौभाग्यं देहि सुव्रदे अन्यांश्च सर्वकामान्मे देहि देहि नमोऽस्तु येवं दे, संप्रार्थ्य सम्प्रार्थ्य देवेशीम् भवानीं भव संयुतां व्रतसम्पूर्तिकामादौ वायनं दापयेत् तथा एवं षोडशवर्षाणि कृत्वा नारी नारीव्रतं शुभम् उद्यापनं चरिद्भक्त्या वित्तशाढ्यविवर्जिता मण्डपे मण्डले शुद्धे सुरार्चनं। कृत्वा ताम्रमयं पात्रं कलशोपरि विन्यसेद सौवर्णीं प्रतिमां तत्र भवान्या प्रतिपूजयेद् गन्धपुष्पादिभिः सम्यक्ततो होमं समाचरेद् वेणुपात्राय षोडशभिक् पक्वान्न परिपूरितैः समर्प्य देव्यै नैवेद्यम् द्विजे द्विजेश्वेतन्निवेदयेत् वायनं च ततपश्चाद्द्यात्संबन्धिबन्धुषु प्रतिमां गुरवे दत्वा द्विजेभ्यो दक्षिणां तथा पूर्णं लभेद्भलं नारी व्रताचरणतत्परा भाद्र सुप्रकृतियायं व्रतं वै हारितालकं कुर्याद्भक्त्याभिधानेन आद्याध्यार्चनपूर्वकम् तदस्तु काञ्जने पात्रे राजते चापि ताम्रके वैणवे मृण्मये वापि विन्यस्यान्नं सदक्षिणम् सफलम् च च द्विजाय प्रतिपादयेद सदन्दे पारणं कुर्यादिष्टबन्धुजनैः सह एवं कृतव्रत नारी भुक्त्वा भोगान् मनोरमान् व्रतस्य प्रभावेण गौरी सहचरी भवेद सौभाग्यद्रव्यवस्त्राणि वंशपात्राणि षोडश दादव्यानि प्रयत्नेन ब्राह्मणेभ्यो यथाविधि अन्येभ्यो विप्रवर्येभ्यो दक्षिणां च प्रयत्नदः भूयसीं च ततो दद्याद्विप्रेभ्यो देवितुष्टये एवं व्याकुरुते नारी व्रतं सौभाग्यवर्धनं साधुदेवी प्रसादेन सौभाग्यं लभते ध्रुवं यदा तृतीया भाद्रे तु हस्तार्क्ष सहिता भवेद् हस्तगौरीव्रतं नाम तदुद्दिष्टं हि शौरिणा तथा कोडीश्वरी नाम व्रतं प्रोक्तं पिनाकिना लक्षेश्वरी चैव तथा तद्विधानमुदीर्यते अस्यां व्रतं तु सङ्ग्राह्यं यावद्वर्ष उपवासिन कर्तव्यं वर्षे वर्षे दु नारद अखण्डानां तण्डुलानां तिलानां वा मुनीश्वर लक्षमेकम् विश्वक्षिपेत् पयसि संसृते तत्पक्वेन दु निर्माय सुशोमनाम् प्रकरे गन्धपुष्पाणां पुष्पमाला विभूषितां संस्थाप्य पार्वतीं तत्र पूजयेद्भक्तिभावितः गन्धैपुष्पैस्तधा धूपैर्दीपैर्नैवेद्यविस्तरैः विविधैश्च फलैर्विप्र नमस्कृत्य क्षमापयेद् तदो विसृज यद्देवीं जलमध्येदक्षिणां दत्वा विप्रेभ्यो भुञ्जीयाच्च परे दिने इति ते कथितं विप्रकोडिलक्षेश्वरी व्रदं गौरीलोकं प्रयात्यन्ते व्रतस्यास्य प्रभावतः इषशुक्लतृतीयाम् बृहद् गौरीव्रतं चरेद पञ्चवर्षं विधानेन पूर्वोक्तेनैव नारद आचार्यं पूजये दन्दे विप्रानन्यान्धनादिभिः सुवासिनी पञ्चपूज्या वस्त्रालङ्कारचन्तनैः कञ्चुकैश्चैव ताडङ्कैः हरिप्रियाः वंशपात्राणि पञ्चैव सूत्रायै संवेष्टितानि च सिन्दूरं जीरकं चैव सौभाग्यद्रव्यसंयुतं बोधीमपिष्टजातं च न वापूपं फलादिकं वायनानि च पञ्चैव ताभ्यो दद्याच्च भोजयेद अर्थं दत्त्वा वायनानि पश्चाद् भुञ्जेद वाग्यथा तद्बलम् धारये कण्ठे सर्वकामसमृद्धये ततः प्रातः समुद्धाय सालङ्कारा सखी जनैः गीदवाद्ययुधा नद्यां गौरीं तां दुविसर्जयेद आहूतासि मया भद्रे पूजिता यथाविधि मम सौभाग्यदानाय यथेष्टं गम्यतां त्वया एवं कृत्वा व्रतं भक्त्या द्विजदेवी प्रसाददः भुक्त्वा भोगांस्तु देहान्ते दे, गौरी लोकमवाप्नुयाद ऊर्ज शुक्लतृतीयां विष्णुगौरीव्रतं चरेद पूजयित्वा जगद्वन्द्यामुपचारय पृथग्विधैः सुवासिनीं भोजयित्वा मङ्गलद्रव्यपूजितां विसर्जयेत् प्रणम्ययिनां विष्णुगौरी प्रतुष्टये मार्गशुक्लतृतीयां हरगौरीव्रतं शुभं कृत्वा पूर्वविधानेन पूजये जगदम्बिकां यदद्व्रतप्रभावेण भुक्त्वा भोगान् मनोरमान् देवीलोकं समासाध्य मोददे च तया सह पौषशुक्लतृतीयां ब्रह्मगौरीव्रतं चरेद् पूर्वोक्तेन विधानेन तत्र सङ्गता मासशुक्लतृतीयां पूज्या पूर्वोक्तेन विधानेन नालिकेरार्घ्यदानदः प्रसन्ना दिशदि स्वीयं लोकं तु व्रततोषिता फाल्गुनस्य सिदे पक्षे तृतीया कुलसौख्यता मुने देवीपूजा विप्रभूजा दानं होमो विसर्जनम् इत्येवं कथितानीह तृतीया या व्रतानि दे पत्या कृतानि ज्येष्ठां स्तु कामान् दार्द्युमनोगदान् दिश्रीभृतनारदीयपुराणे पूर्वभागे बृहतुपाख्याने चतुर्थपादे द्वादशमासतृतीयाव्रतकथनम् नाम द्वादशाधिकशततमोऽध्यायः ओम्